प्रेमपूर परीवाग प्रेम पूरपरीवाग कटाक्षाविष्कृताशयः शङ्करगाप्रग शङ्करप्रग शङ्करः प्राग मीनाक्षी साकुदु रन्तुमिच्छया शङ्करगा मीनाक्षीं साकुतं रन्तुमिच्छया प्रागे शङ्करगा सागूतं रन्तुमिच्छया मीनाक्षी r a Bye. <laughs>